ऐत्रीयारण्यके प्रथमप्रश्नप्रारम्भः ओ भर्द्रम् गर्णयो ओम् शाम् धिःशाम् धिःशान्तिः भर्द्रम् गर्णेभिः शृणुयाम देवाः भद्रम् पश्ये वाक्षठरिजत्राः स्त्रेरङ्गैः तुष्ट्वा गृंशस्तनोभिः ऋषेम देवैरङ्गदायुः स्वस्ति न इन्द्रावृद्धश्रवाः स्वस्ति नः पूजा विश्ववेदाः स्वस्ति नस्ताक्षरिष्णेः स्वस्तिनामृहस्पतिर्दधातु स्वस्तिना आपमापामपः सर्वाः अस्मादस्मादितोमुदः अज्ञर्वायश्च शूर्यश्च सहसङ्गस्करभ्यः वायुवश्वालक्ष्मिपदयः मरेढ्यात्माद्रुहः देवेर्भवनसोमरेः पुत्रवत्त्वाय मे सुता महानाम्नेर्महामानाः महसो महसस्व देवेः पर्जन्यसोवरेः पुत्रवत्पायमे सुता अपासृष्ट्यमपार्क्षः अपासृष्टिमपार्घम् अपाग्रामपजावर्तिम् अपदेवीरितोहिता वज्रन्देवीरजितागच्छ भुवनम् देवसोवरेः आगत्य रचिति देवीर्ध्वमुदेशता शिवानः सन्तमा भवन्तो देव्याः वोषयः सुमृलैकादनस्पति मा देव्योमसन्दृशि स्मृतिः प्रत्यक्षमैदिक्यम् अनुमानश्चतुष्टयम् यैरैरादित्यमण्डलम् सर्वे विधाः सोऽमरीचिमादत्ते सर्वस्माद्धुवनादिभिः तस्याः पाकविशेषेण स्मृतङ्कालविशेषणम् नदेव प्रभवात् काचित् अक्षय्यात्सङ्गते यथा समायन्ति सौरस्तेन निवर्तते एवम् नानासमुत्थानाः कालाः संवत्सरव्यसृताः अनुसश्च महसश्च सर्वे समनियन्त्रितम् हृः सर्वे समाविष्टः ऊरः सन्न निवर्तते संवत्सरम् विद्यारे तदेव लक्षणे अणुविष्टमद्भिष्ट समारूढप्रदिश्यते सम्भत्सरप्रत्यक्षेण नाशिसत्वप्रदिश्यते वडरोविक्रुहप्लिङ्गः एतद्वरुणलक्षणम् यत्रैतदुपदिश्यते सहस्रम् तत्र नीयते एककं हि शिरोनामुखे कृच्छ्रन्दुरलक्षणम् उभयतः दे, सप्तेन्द्रियाणि जल्पितम् द्वे उपदिश्यते शुक्लकृष्णेण संवत्सरस्य रक्षिणवामयोः पार्श्वयोः तस्य यदा भवति शुक्रन्ते अन्यत् रचन्ते अन्यत् पुषरोपे अहने द्यौनिवासि विश्वासिमायावतिस्वशावः भद्रादे पूजम् निहरादिरस्तुली नात्रिभुवनम् न पूषा न पशवः आदित्यः एतद्वेदसंवत्सरस्य प्रेतमघुम् रूपम् योऽस्य महारक्षबुत्पत्स्यमानो भवति पुण्यम् कुरुष्वेति समाहरणम् दद्यात् सा कञ्चानाकुम् सत्त्वसमाहुते कजम् षडुद्यमार्षयोदे वजा इति तेषामिष्टानि विहितानि चामसा त्वे निन्दे स्मदिशते यस्तितगुंसकायम् तदस्य वाच्यविभागो अस्ति यदेकम् शृणोत्येन किम् शृणोति न हि प्रवेदतु कृतस्य पन्थामिति ऋतुरऋतुनानुद्यमानः विदनादाभिधावः षष्टिश्छत्रुपुंसका वल्गाः शुक्लकृष्णौ पैषकत्वसमस्मृतः अमो नादयते कन्यान् अमोकष्टपरिरक्षतः एतावाचप्रयुज्यन्ते यत्रैतदुपदिश्यते एतदेव विजानीयात् प्रमाणङ्कालपर्यये विशेषणम् तु वक्ष्यामः ऋतूनाङ्गन्यबोधत शुक्लवातारुद्रगणः प्रदेशः निरहम् पृथिवेयुम् सर्वा क्षेण सह विश्वरोपाणि वा सागुंसि आदित्यानाम् निबोधः संवत्सरेण कर्मफलम् परिणाभिर्दुंसः दुःखो दुःखचक्षुरिव पद्मापीतयपदृश्यते शीतेनाम् यथयन्निव दुर्लक्षय वदृश्यते यावे त्वयाभ्यगृश्यन्ते संवत्सराभ्यगृश्यन्ते या प्रतिष्ठन्ति संवत्सरेण प्रतिष्ठन्ति वर्षाभ्यैत्यर्थः अक्षिदुःखोच्छदस्यैव विप्रथन्ये गणेनिके आङ्गेधाघनन्नास्ति ऋभूणान्तम् निबोधल कनकाभानिवासा पुंसि अहतानि निबोधल अन्नवश्लीरमृद्वीत अहम्भो जीवनप्रदः एतावादपयुज्यन्ते शरद्यत्रोपदिश्यते अभिशो अन्वन्तोभिघ्नन्त किव वादवन्तो मुद्गनाः अमुदो जेतुमिषमुखमिव सन्नद्धाः सह दृशयः अबद्धस्यैरवस्य वर्णैरिव ऋषिकादकवर्दिनः अक्रुद्धस्य योक्ष्यमानस्य क्रुद्धस्यैवलोहिनी हेमश्चक्षुषी इत्यादे अक्षरयोः क्षिपणोरिव दुर्भिक्षम् देवलोकेषु मनो नाम जगन्गृहे एतावाचप्रवदन्तेः वैद्युतोयान् त्रिशैषेः सा अग्निः पवमाना अन्वैक्षता इह एक जीविकामपरिपश्यन् तस्यैता भवति इहे हवस्वतपसः मृतः सूर्य त्वचः शर्मसत्पथा आवरणे अधिकाम्राणि वासा गुङ् अस्तिपद्रिदग्निजा विश्वेदेवाभिप्रहरन्ति अग्निजत्वा देवो न मत्यः अराजावर्णो विभोः मातिर्कच्च न विद्यते दिव्यस्वीकाशरात्रिः दिव्यामरा श्रुता तस्येङ्ग्रोवम्रिरूपेण अभ्रवर्णेषु चक्षते एतदेव दय्यो भारस्पत्यस्य एतत् रुद्रस्य धनः रुद्रस्यत्वः भवते तस्माद्य सप्रवर्गेण यज्ञेन एतदे रुद्रप्रतिधादे नैरम् वृद आरु भवति एवम् वेदोद्वाक्षोतिरश्चादिप्रदर्शते नैव लोकन्न च दृश्यते अन्यान्यन्तव्यस्रातः ततस्तध्ये पलक्षणम् लोहितोदेन प्रति कङ्करण्ञ्जलिकाङ्करताम् त्रिजानुकामेञ्जलिका तस्मै सर्वधर्वनुमन्ते मर्यादाकर्ता प्रोधा ब्राह्मणः आप्नोति एवम् वेदाहदसंरत्सरे सेनानेभिः सह इन्द्राय सर्वान् कामानपि भवति सद्रप्सः तस्यैषा भवति अभद्रप्सो अगुम् सुमगेमतिष्ठते यानः कृष्णा द्विषभिः सहस्रैः आवत्नमिन्वश्यत्याधमन्तम् वस्तुगतम् निर्पणा भद्रामिति येनैवृत्या सह अधुरान् परिवृष्टदे पृथिव्यमते कामन्नवत्थितः संवत्सरो दिवम् च नैवम् विदुताचार्या देवासिनौ अन्योन्यस्मै दृह्याताम् योग्रह्यते दे, द्रश्यते स्वर्गान् लोकात् इत्यमण्डलानि सूर्यमण्डलायाख्यायिकाः अथवोद्भगंसनिर्वचनाः आलोको भ्राजः पटलः प्रसङ्गः पड़ा स्वर्णकाज्योतिषीमाने विभासः ते अस्मै सर्वेऽधिममातपन्ति ओर्जन् दुहानानमस्वरम् जगति कस्य कोष्टमः समःन्द्रजहाैजा भवति यत्ते शिल्पम् कस्य परो चनावदे इन्द्रियावत्पुष्कलम् चित्रभाव यस्मिन् सौर्य अर्पिताः सप्तसाकम् तस्मिन् राजा नमधिविश्रयेममिति ते अस्मै सर्वे कस्य वा ज्योतिर्लभन्ते कस्य पार्थनिर्धमति भक्ताकर्मगतिरैवम् प्राणजीवानीन्द्रियजीवानि सप्तशेषण्याः प्राणाः शौर्या इत्याचार्याः अपश्यमहमेदान् सप्तसौर्या पञ्चकर्णावाच्यायनः सप्तकर्णश्चप्लाक्षिः आनुश्रयिकेऽवलोकश्यपयिते भोवे जयिते नहिते कुमिलमहामेरम् दन्तम् अवश्यमहमेरत्सूर्यमण्डलम् परिवर्तमानम् कार्यप्राणप्रातः गच्छन्तमहमेरम् एकम् च जहतम् ध्याजपटलपदङ्गानिघने तिष्ठन्नातपन्ति तस्माद्हेदप्रितपाः अमुत्रेतरे तस्मादिहातप्रितपाः एषा ते अस्मै सर्वे कृतमागमन्ति ऊर्जन् दुहानानसत्वनन्त इति सप्त त्रिदः सूर्या इत्याचार्याः तेषामेषा भवति सप्तदिशो नानासूर्याः सप्तहोतारित्विजः देवा आदित्यागे सप्ता तेभिः सोमाभिरक्षण इति अभ्याम् करोति एषैवाताहर्षौर्यराया इति वैशम्पायनः तस्य एषा भवति यद्यापयन्दते शतपुंशतम् भूमेः स्युः नत्वावज्रेण् सहस्रकंसौर्याः अनुरजातमष्टरोदशे इति नानालिङ्गत्वादूनान्नाशौर्यत्वम् ना, अष्टमुदव्य सूर्यमण्डलान्यष्टादोध्वम् एषामेषा भवति छिद्रम् देवानामुदकादनीकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राद्यावा अन्तरिक्षम् सूर्यात्मा जगदस्तेति क्वेदमभ्यण्डिविशये क्वायगुञ्जम् वत्सलामि चाह त्वयम् देवरात्रि उपमासामश्चिदाः अर्धमासामुहूर्ताः द्विवेदास्तुभिः सह निविशन्ते सम्प्रति कालात्सनिविशन्ते आपः सौर्ये समाहिताः अभ्याहान्यपप्रपद्यन्ते विद्युत्सौर्ये समाहिता आवन्ने हि मे भूमि यञ्चाशौ चरोदशीस्वितरान्तराभूतम् एने मे विशते उभे विष्णा विशले भूमि इति वत्सस्य वेदना विरापतेधेन मतेः भूतम् सूर्यवशने मनुषयशस्ये व्यष्णभ्रा द्वोदसी विष्णवेदे नाथस्थपदिवीमभिलो मयूकैः किं तद्यष्णार्बलमाहुः कादेत्यक्तिम् परायणम् ये को निर्धारयद्देवः रेचते रोदसी उभे पादाद्व्यष्णार्बलमाहुः अक्षराद्दीर्तिरुच्यते त्रिमदाद्धारयद्देवः यद्यष्णालेखमुत्तमम् अग्रयापायवष्टैव एषदस्य परायणम् वृच्छामित्रापरम् वृत्यम् अवमाध्यमन्तरम् लोकम् च पुण्यपापानाम् एतत्पृच्छामिधम् प्रये अवमाहुत्तरम् नृत्यम् अवमानम् तु मध्यमम् अग्रदेवापमो मृत्योः चन्द्रमाः चतुरुच्यते अनाभोगाः परम् नृत्यम् पापाः सङ्गन्ति सर्वदा भोगास्त्वेव संयन्ते यत्र पुण्यकृतो जनाः ततो मध्यममायन्ति चतुर्मम् च सम्प्रति दृच्छाविपापकृतः यत्र यात्र यते यमः पन्नस्तद्ब्रह्मन् प्रब्रूहि यदितो गृहाणि कष्टपादुचिताः सूयाः आपान्यर्घ्नन्ति सर्वदा रोगस्योरन्तर्देशेषु तत्रन्यस्य अभी अभी ते शरीरा प्रपद्यन्ते यथा पुण्यस्य कर्मणः अपाहान्यपादके शासः तत्र तयो निजाः मृत्वाफलमृत्युमापद्यन्ते पद्यमानाः स्वकर्मभिः आशादिकाक्रमयैव ततः पूयन्ते वेदा सकर्वैवम् विद्ब्राह्मणः दीर्घश्रुत्तमा कस्य पश्याचिद्धगमनः सिद्धागमनः तस्य एका भवति आयस्मिन् सप्तवासवाः लोहन्ति पूर्व्यारुहरेर्घसृत्तमः इन्दस्य घर्माचरि कस्यपः पश्यक भवति तत्सर्वम् परिपश्यते सूक्ष्म्यात् अथाज्ञपूर्णस्यैका भवति अग्नेयसुपचाराय अस्मान् विश्वानदेव वृजुनान् विद्वान् योध्यस्पद्युः राणमेनः भूयिष्ठान्तेनपभक्तिम् विधेमेति अग्निष्ठजातवेदाश्च सहो जाजिदाप्रभुः वैश्वानरोपाश्च वञ्जिराधाश्च सप्तमः विसर्पेवाष्टमो दीनान् ये जेष्टोपसवः क्षिदा इति द्वे नीला तिष्ठपेटकातिष्ठेति अथ वायोरेकादशवरुणस्य एकादशस्यैकस्य प्रभाजमानाव्यपदाताः याश्रवाभिैद्यः अजदाः परुडाः श्यामाः कपिलादिलोहिताः ऊर्ध्वा अवदण्डाश्च वैद्यिदहित्येकादश नैनम् वैद्यिदायिनस्ति य एवम् वेदा विद्युत्पथमेवाहम् मृत्युमयेच्छमिति नत्वकामकम् हन्ति ह एवम् वेदा असगन्धर्वगणाः स्वानभ्रार् अङ्गारिबम्भारिः हस्तस्वहस्तः विश्वामविश्वापसो मो धन्वान्सौर्यवर्चाः प्रत्येकादिशगन्धर्वगणाः देवाश्च महादेवाः अस्म्यश्च देवागरगिरः देवा अय्यङ्गारिमस्ति एवम् वेदा गौरीमायुषलिलानि रक्षति एकपदी त्रिवदेशापदी अष्टापदी नवपदी बुभूषे शास्त्रापरमे व्योमन्विते वाचो विशेषणम् अथनिकतव्याख्याताः कानुक्रमिष्यामः वराहस्पतपथः विद्यन्म स्वधूपयः स्वापयोगृहमेधा श्रेत्रेते ये जेमेविद्विजः पर्जन्याः सप्तपरिषमेव विभक्तिविपरीताः सप्तभिर्वादैरुदीरिताः अमोन् लोकानभिवर्षन्ति तेषामेषा भवति समानमेतदम् उच्चैत्यवचाहभिः भूमिम् पर्जन्या जिह्वन्ति जिवन् जिह्वन्त्यज्ञैः अक्षरम् भोधकृतम् विश्वे देवा उपासरे महर्षिवस्य गोप्तारम् जमदग्निमकुर्वद जमदग्प्यायरे छन्दाभिष्टदुर्तलैः नार्यः स्वामस्य दर्ता सह ब्रह्मणा वेर्यावद शिवानः प्रतिशोदशः तच्छञ्जोरावृणीमहे गातुञ्जज्ञाय गातुञ्यज्ञपदये देवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्जिगादभेणजम् छन्मास्तद्विपदेः ृदयम् भूमिः परमव्योमसहस्रवृत् अश्विना भुजूना सत्या विश्वस्य जगदस्पति जाया भूमिः पदुर्व्योमा मिथुनन्ता अतुर्यसोः पुत्रो बृहस्पति रुद्रः सरमा इदस्त्रीपुमम् शुक्रम् वा मन्यत् निजम् वा मन्यत् विषरूपे अहने द्यौरिवस्थः विश्वाहिमायावधस्वधावन्तौ भद्रावान्भूषणा विहरादिरस्तु वासाद्यो चित्रो जगतो निधानौ रावा भूमे जरथस्वंसखायौ राना रासभाश्वाहवम् मे शुभस्पति आगलम् सूर्यया सह चुग्रोह भुज्यमश्विनौ अवाहा तमोहसम्नौभिरा दम्बतीभिः अन्तरिक्षप्रविषरपोदकाभिः तिस्रः क्षपस्त्रहादिव्रजद्भिः नाद्याभुज्यमोहसुपलङ्गैः समुद्रस्य धन्मन्नार्द्रस्य पारे ऋभिरथैः शतमध्यषडश्वेः सवितारम् मिलन्मन्तम् अनुबद्धादिशाम् वरः आहुपोरुषम् वरश्चैव सवितारे वसोऽभवत् जगिम् सुदृप्तम् मिलिध्वैव ी अन्वेजतुग्रावक्रियान्तम् आयसूयान् सोमदर्शङ्कामस्तमोद्योद्योगः वाचोगाह्याकृते सदर्गोभिस्तवाचे तन्ये रक्षदानम् विधाश्चये अन्वेजवयवृत्त्यास्तः एवमेतौ स्थो अश्विना ते पृथिव्योः त्रियो वत्सावहो रे रात्रे पृथिव्याः दिवो रात्रिः काविषट दम्पती एव भवतः यणोरेको वत्सौ अग्निश्चादित्यश्च रात्रे वत्सः श्वेतादित्यः अन्योग्निः ताम्रो अरुणः काविषटौ दम्पती एव भवतः वत्सौ ऋतश्च वेद्यश्च अग्नेर्वृत्रः वेजुला ब्रह्मी एव भवतः एदो वत्सौ उष्माचनेहारश्च वृत्रस्योष्मा वेदुलस्य निहारः तौ तावेव प्रतिपद्येते शयम् रात्रिगर्भिणी वृत्रेण संवसति तस्या वा एदुल्बणम् यद्रात्रौ रश्मयः यथा गोद्गर्भिण्या एवमेतस्या उल्पणम् प्रजयिष्टः प्रजया च भवति एवम् वेद एनमुद्यन्तम चेति आदित्य पुण्यस्य वत्सः अथ पवित्रा गिरसः पवित्रवन्तः परिभाजमासते रत्नाभिरक्षते मृताम् महसमुद्रम् वरुणस्थिरोदधे धीरायुच्छे गुर्धरुणेश्वारभम् पवित्रम् प्रभृर्गात्राणि पर्ये च विश्वदः अतत्रमो अश्नु श्रहम् दत्तत्समास ब्रह्मादेवानाम् अथस्रब्देश्रब्दात्रिष्टयते सर्वे त्रयोगस्त्यश्च नक्षत्रैः सङ्कुतापृषन् वा श्वस्यावर्तिकामस्य अमीरक्षामीरादौच्चव्यमेयोः अदर्थानि वरुणस्य मृदानि जागरचन्द्रमानक्षत्रमेति तत्सपितर्वरेण्यम् भर्गो देवस्य धीमहिनः प्रचोदयात् तत्सवितर्वृणेमहे वयम् देवस्य भोजनम् श्रेष्ठम् सर्वधातमम् पुरम् भगस्य धीमहि अभागोहदर्भीने सर्वाः दिवन्धरः कन्दान्यभवन् नाम नामैव नाम तावु मे पुपुंसाहुः पश्यक्षण्डान्न विजेदन्तः पुत्रस्य इमादिकेत यत्ताभिजानासविदः पिता सद अन्धो मनिमविन्दते तमलम् कुलिरापयत् अेव प्रत्यवञ्चमलिक्शाखम् वृक्षय्याम्प्रदेशर्मारयादिः अजितम् मृदङ्गीनम् मेनापणवलाजितम् मृदञ्जैवम् चकिञ्च अङ्गानि अदृश्यस्तृष्यध्याय तस्माज्जाता मे मिथौ चलन् पुत्रो नित्यावेयः अचेतायश्चेतनः सदम् मणिमविन्दने सोऽप्रत्यमुने सोहितश्च नैतमिषम् विजित्वा नगरम् प्रविशेत् यदि प्रविशेत् विशोयित्वा प्रविशेत् तत्सम्भवस्य व्रतम् आत्मज्ञेन सन्तिष्ठा एका आश्वमे गयोजनम् एकचक्रमे कथनम् पारधादिगजम् न दृश्यति न व्यचते न स्याक्षोया तु सज्जति यच्छेताोहिताकश्चाग्नेः अथेयत्वा च तिष्ठति एकया च तथसिष्टस्वभूते द्वाभ्यामिष्टये विपुंसत्या च विधृष्टभाषे त्रिपुंसदा च एद्धर्माय विहदा विमुञ्च आदित्ये चन्द्रवर्णानाम् गर्भमाधे यः इतः सिक्तकम् सूर्यगतम् चन्द्रमसेरसङ्कृतिः मा राजञ्जनया अग्रे अग्न्यम् एको रुद्रमुच्यते सङ्ख्याता सहस्राणि स्मर्यलेण निर्दृश्यते एवमेतन्यबोधना आमन्त्रे ग्रहरिभिः याहि मयूररामभिः मात्वानः सङ्गयवतायिः मामन्त्रेन्द्रहरिभिः यामिमयोररामिभिः ेवता अणुभिष्टमहद्विष्टा निहष्पेण समायुतैः कालेन हरितमापन्नैः इन्द्राजादिसहस्रयुक् अज्ञाष्ट्यवसनः दृगः संवत्सराविषुपन्नैः नित्यास्ते विचलास्तव सुब्रह्मण्योगुम् सुब्रह्मण्योऽगुम् सुब्रह्मण्यम् इन्द्रागच्छ हरिवागच्छ मेधातिथेः मेषविषणश्वस्य मेने गौरावस्कम्भिन्नहल्यायै जाल कौशिकब्राह्मणगौतमब्रुवाण अरुणाश्वा इहागताः प्रथमकृषविक्षितः अष्टो जिग्वासो अग्न्ययः अग्निश्च जातवेदाश्चेत्येते ताम्राश्वास्ताम्ररथाः ताम्रवर्णास्तथाः ण्डहस्ताःखादगतः पितो रुद्राः पराङ्गताः उक्तस्थानम् प्रमाणम् च पुरगिता च विश्वरूपे यहागतात्मना अप्सुषाद्वयोः उक्तो वेषो वासागुंसि च कालावयवानामिदप्रतीत्या वासात्या इत्यश्विनोः कोऽन्तरिक्षे शब्दम् करोतीति वासिष्ठोरोहिणो वीमागम् चर्क्रे तस्य हिटा भवति वा श्रैव विद्युति बृम्मण उदरणमसि बृह्मण उदीर्णमसि बृह्मण आस्तरणमसि बृह्मणवस्तरणमसि अष्टयो नेमष्टपुत्रान् अष्टपत्रे विमाम्महे अहम् वेदनमे मृत्युः रचामृत्युरखाः रच अष्टयोवाण्यष्टपुत्रम् अष्टपदिजमन्तरिक्षम् अहम् वे धनमे मृत्युः न चामृत्युरघाहरद् अष्टयोनीमष्टपुत्राम् अष्टपत्नीमहोन्दिवम् अहम् वे धनमे मृत्युः न चामृत्यरघाहरत् सुत्रामाणम् मही मोषो अतितर्जौरतितनम् दरिक्षम् हरितर्मातासु पितासु पुत्रः विश्वे पञ्चजनाः अरितर्जातमरितर्जनिप्रम् अष्टौ पुत्रासु जाता स्तन्नः परे देवा उपक्रयेत्सप्तभिः परामार्तान्दमास्यदे सप्तभिः पुत्रैरभिः उपक्रयेत् पूर्वैयुगम् प्रजागी नृत्यवेददे परामार्तान्दमाभरिदे तान्नुक्रमिष्यामः मित्रश्च वरुणश्च धाता च आर्यमा च अगुंशश्च भगश्च इन्दस्य व्यवस्पाकश्च चेत् रण्यगर्भो हंशय ब्रह्मज्ञानम् तदित्पदमिति गर्भप्राजावत्यः अधमुरुडः सप्तमुरुढः योऽसौ तपन् मृदेति स सर्वेषाम् भूतानाम् प्राणानादायोदेति वामे प्रजायामापशूनाम् माम प्राणानादायोदगाः असौ योस्तमेति स सर्वेषाम् भूतानाम् प्राणानादायास्तमेति मामे प्रजायामापशूना माम प्राणानाजायास्तङ्गाः असौयापूर्यते स सर्वेषाम् भूतानाम् प्राणेरापूर्यते मामे प्रजायामापशूनाम् माम प्राणेरापोरिष्ठाः असौयापक्षीयते स सर्वेषाम् भूतानाम् प्राणेन पक्षीयते मामे प्रजायामापशूनाम् णेरपक्षेष्ठाः नक्षत्राणि सर्वेषाम् भूतानाम् प्राणेरवपृहत्पञ्चिजोत्सर्पञ्च मामे प्रजायामापशूनाम् माम प्राणेरवप्रसृपदमोत्सृपद इमे मासाश्चार्धमासाश्च सर्वेषाम् भूतानाम् प्राणेरवपृहत्पञ्चोत्सर्पञ्च च मामे प्रजायामापशूनाम् माम प्राणेरव प्रसृपधमोऽत्स्रपद इमधवः सर्वेदाम् भूतानाम् प्राणेरव प्रसर्पन्ति चोत्सर्पन्ति च मामे प्रजायामापुशूनाम् माम प्राणेरव प्रसपधमोऽस्रपदम् वत्सरः सर्वेदाम् भूतानाम् प्राणेनव प्रसर्पदिचोत्सर्पदि च मामे प्रजायामापुशूना मामप्राणेरव प्रसृभमोऽत्स इदमः सर्वेषाम् भूतानाम् प्राणेन वा पृथक्परिचोक्षत्पदित मामे प्रजायामापशूना माम प्राणेन प्रसुर्वमोत्सुवा यकु रात्रिः सर्वेषाम् भूतानाम् प्राणेन वा पृथक्परिचोक्षपदित मामे प्रजायामापशूना एतद्वामिषणम् वामकौरेभ्यम् अथादित्यस्य वसूनामादित्यानागस्थाने स्वतेजसाभानि रुद्रानामादित्यानागस्थानेष्व तेजसाभानि आदित्यानामादित्यानागस्थानेश्व तेजसाभानि तदाकम् दत्यानाम् आदित्यानागस्थानेष्वतेजसाभानि अभिषोन्वतामभिधनाम् पादवताम् मरुताम् आदित्यानागस्थानेश्व तेजुसाभाणि ऋभूनामादित्यानागस्थानेश्व तेजसाभाणि विश्वेशाम् देहानाम् आदित्यानागस्थानेष्वतेजसाभानि संवत्सरस्य सविदोः आदित्यस्य स्थानेश्व तेजसाभानि ओम् भोर्भस्वः अस्मयोगो मिचनम् मानो मिथनकुण्डेभम् आरोगस्य स्थानेश्व तेजसा भानि राजस्य स्थानेष्वतेजसा भानि पडलस्य स्थानेश्वतेजसा भानि पदङ्गस्य स्थानेश्व तेजसा भानि स्वन्नरस्य स्थानेश्वतेजसा भानि ज्योतिषीमठस्य स्थानेष्वतेजसा भानि निभासस्य स्थानेश्वतेजसा भानि कश्यपस्य स्थानेश्व तेजसा भानि ओम् भोद्भवस्वः आभोमो मिथिनम् असभायोरेकादश पुरुषस्यैकादशस्तेकस्य प्रभ्राजमानागमरुद्राणागस्थानेष्वतेजसाभानि यवदातानागोरुद्रानागस्थानेष्वतेजसाभानि वासिकवैद्युतानागोरुद्राणागस्थानेश्वरेजसाभाणि रजदानागमरुद्राणागस्थानेष्वतेजसाभानि वरुषाणागमरुद्राणागस्थानेश्व तेजसाभानि श्यामानागमरुद्रानागस्थानेष्वतेजसाभानि प्रभानगम्रगस्थ तेजसभा अतिगमुद्रागस्थर्धमुद्रगस्थावंतागमुद्रगस्थावेजसभाग रुद्रानस्थनेवेजसभा प्रभ्राजवनीगद्रीनागस्थनेजसा भा यवदादीनागरुद्राणि नागस्थानेष्व तेजदा भानेनागोरुद्राणि नागस्थानेष्व तेजदाभानि रजता नागमरुद्राणि नागस्थानेष्वदे जदाभाे वरुषानागरुद्राणि नागस्थानेष्व ते जदाभाे श्यामानागरुद्राणि नागस्थानेष्व ते जदाभावे कपिलानागोरुद्राणि नागस्थानेष्व अतिलोहिनीनागोरुद्राणीनागस्थानेश्वदेजसाभानि ऊर्ध्वानागोरुद्रानीनागस्थाने स्वदेजसाभानि आपवदन्तीनागोरुद्राणीनागस्थानेश्वदेजसाभानि वैद्युकीनागोरुद्रानीनागस्थाने स्वदेजसाभानि ओम् भोद्भवस्तः रूपाणि वो मिथनम् वा नो मिथनगुमरे अथाग्नेरक्षपुरुषस्य अग्नेयः पूर्वदिश्यस्य स्थानेश्व भाणि श्यस्य स्थाने तुलेलाभानि सहोरसो दक्षिणदृश्यस्य स्थाने सुले लाभानि हरिप्रभ उपदेश्यस्य स्थाने तुले लाभानि ऐश्वरस्यापरदिश्यस्य स्थाने तुलेललाभानि नर्यावद उपदिश्यस्य स्थाने तुलेललाभानि वङ्किलाधरपुलदृश्यस्य स्थाने सुलेलाभानि सुदर्पिण उपदेश्यस्य स्थाने तुललाभाणि ओम्भोद्भवस्मः दक्षिणपूर्वस्याञ्जविधर्पे नरगः तस्मान्नः परिपाहे दक्षिणापरस्याञस्य विधर्पे नरकः तस्मान्नः परिपाहे उत्तरपूर्वस्याञ्जशविषादे नरगः तस्मान्नः परिपाहे उत्तरापरस्यान्यस्य विषादे नरकः तस्मान्नः परिपाहे आयस्मेन यस्मै सप्तमासमा इन्द्रियाणशक्रतविद्येते इन्द्रघोषा वा पशुभिः पदश्चादुपदधा अनाजवसावक्षत्रैः पश्चादुपदधताम् विश्वकर्मा वा वित्तैरुत्तर उपदताम् दृष्टावैरुपदिष्टादुपद्यान्वः पश्चादिति आदित्यः सर्ववाज्ञः सूर्योभिः चन्द्रमादिक्षो नक्षत्राणि स्वलोके एवाह्येव एवाह्यग्ने हेमाहि मायो हेमाही इन्द्र हेमाहिपोषन् हेमाहिदेवाः आपमापामुपः सर्वाः अस्मानस्मादितोमुदः अज्ञर्वायिश्च सूर्यश्च सहजम् च स्करद्भ्यः वायुवश्वारश्चिपदयः वये च आत्मानो अद्रुहः देवेर्भुवनसोवरेः पुत्रवत्पायमे सु महानाम्नेर्महाणाः महसो महसस्वः देवेष्पर्जन्यसोवरेः पुत्रवत्पायमेसुता अपाशृष्णिमपारक्षः अपाशृष्णिमपारघम् अपारघ्रामकजावृत्तिम् अपदेवेरिदोहिता अज्रम् देवी रजितागिष्टा भुवनन्देवसोपरीः आदित्यानोऽर्थमुदेशता भद्रम् कर्णेऽभिश्रुल्यामदेवाः भद्रम् पश्ये माक्षभर्ययत्राः स्थिरङ्गेयेष्णवांसस्तनोभिः विषयदेवैरञ्जनायोः स्वस्ति न इन्द्रावृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नृष्टनेः स्वस्ति नास्मजाजो हेतवो अरुणादश्चादधा हे समाधिताय सन् शिवानः सन्तमा भवन्तो दिव्याः बोषधयः सन्दृशे योपानम् पुष्पम् वेद पुष्पवान् प्रजावान् श्वमान्भवते चन्द्रभावापाम् पुष्पम् पुष्पवान् प्रजावान् पुष्पान् भवति य एवम् वेद यो पामायतनम् वेद आयतनवान् भवति अज्ञर्वापामायतनम् आयतनवान् भवते यो राज्ञेरायतनम् वेद आयतनवान् भवते आपोवाग्नेरायतनम् आयतनवान् भवति य वेद मायदनम् वेद आयरलवान्भवति वायुर्वा अपामायदनम् आयरलवान् भवति यो वायोरायतनम् वेद आयदनवान् भवति आपो वै वायोरायदनम् आयरनवान् भवति एवम् वेद यो पामायदनम् वेद आयतनवान् भवति असौ वैतपन्नपामायदनम् आयनवान् भवते योऽमुष्यतपद आयडनम् वेद आयलनवान् भवति आपोवा अमुष्यतपद आयदनम् आयलनवान् भवति य एवम् वेद यो पामायदनम् वेद आयतनवान् भवति चन्द्रमा वा पामायतनम् आयलनवान् भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवते यगेवम् वेद योपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायदनम् आयतलवान् भवति यो नक्षत्राणामायदनम् वेद आयतनवान् भवति आ गोवीनक्षत्राणामायदनम् आयतनवान् भवति यगेवम् वेद यो वामायदनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायदनम् आयुरनवान् भवति यः पर्जन्यस्यायलनम् वेद आयुरनवान् भवति आबोवी पर्जन्यस्यायलनम् आयुरनवान् भवति य एवम् वेद योऽपामायदनम् वेद आयुरनवान् भवति सम्वत्सरो वा पामायदनम् भवति यः संवत्सरस्यायदनम् वेद भवति आबोवे संवत्सरस्यायदनम् आयनवान् भवति वेद योप्सु नाम वेदा यो वेद प्रत्येव हिमे वै लोकाप्सु प्रतिष्ठिताः अपागुम्रमुदयम् सन् सूर्ये शुक्रम् समाभृतम् अपागुम्रयोरसः गृह्णान्यत्तममिले हिमे वै लोका अपागुमृहः ते मुष्मिन्नात्ते जानदग्नेमुत्तरवेगे खात्रा अपाम्पोरयुक्तागुल्पदग्नम् पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्चरग्रस्थेर्य तस्मिन् विहाय च अग्निर्णीयपसमाधाय अम्भवादिना वदन्ते कस्मात् प्रणीतेयमग्निष्ठीयते सा प्रणीतेनमप्स्यक्षयम् चीयते असौभवनेत्रिणाहिताज्ञताः तमभिनयेन अभेष्टः उपदधाति अग्निभाेदविषमोर्णमासयोः अथो आहुः सर्वेभ्य कृतश्मिनी एतद्ध स्तराहुः सन्निलाः कमग्नि सत्रियमग्नििन्वाणः संवत्सरम् प्रत्यक्षेण कमग्नि सा वित्रमग्निञ्चिन्वानः अमुमारित्यम् प्रत्यक्षेण कमज्ञञ्चिनुते नाचिकेतमग्नििन्बाणः प्राणान् प्रत्यक्षेण कमग्निलते साधुरुहोत्रियमद्यञ्चिन्बाणः ब्रह्म प्रत्यक्षेण कमग्निनते वैश्वशियमग्निन्बाणः शैलम् प्रत्यक्षेण कमग्निलते उपानुवाक्यमासमग्निन्बाणः इमान् लोकान् प्रत्यक्षेण कमग्निनते इमवान्चिन्बाण इति ेव स प्रजापतिरेकः पुष्करपन्ने समभवते तस्यान्तर्मणसि कामः समवर्तत यस्माद्यद्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा करोति तदेषाभ्यणोक्ता कामस्तदग्मवर्ततासि मनसो एकः प्रथमम् यदा ततो बन्धमस जलरविन्दन् हृदप्रदेश्या कमयोमदेशेति उपैनम् तदुपमति यत्कामो भवति य एवम् वेदा स तपोदर्प्यता सतपस्तप्त्वा शरीरमधूनता तस्य यन्मागम् समासीत् ततो गृणाः केदपोपादर्शनाशयोपतिष्ठन् येन खानाः ते वै खानसाः ये बालाः देवालशील्याः यो रसः सोमाम् अन्तरतः कूर्मम् तमब्रवीत् मम वेत्त्वम् मा पुंसा समभूत् नेत्यब्रवीत् पूर्वमेलाहमिला समिरे अद्बरुडस्य बरुढत्वम् सहस्रशेषः पुरुषः सहस्राक्षःसहस्रपात् भोत्वतिष्ठत् अनमब्रवीत् त्वम् वै पूर्वगुंसमभोः त्वमिदम् भोवः कुरुष्वति स इदायामः अन्तरिणा पुनस्तादुपादधात् एवाह्येवेति ततः नित्यमुदतिष्ठते सः प्राचेदिक अथारुणःकेतुर्दक्षिणतमुपादधात् एवाह्यज्ञ इति ततो वाज्ञवदतिष्ठते सा दक्षिणादिक अथारुणःकेतः पश्चादुपादधात् एवाहि अथार्णकेतुर्परष्ट उपार्धात् एवाहीन्द्रि ततोपा इन्द्रमुपतिष्ठते सोदीज्युतिगे अथारुणः केतुर्मध्य उपाघृधात् एवारिपूषण्ति ततोऽपि पूषो चतिष्ठते सेयन्दिके अथार्णः केतुर्परिष्टादुपागधात् के, से के, के एवारिदेवादि ततो देव मनुष्याः पितरः गन्धर्वाप्सरदस्थो चतिष्ठन् स्तोऽर्धादिक या विप्रभो विपराभुदन् ताभ्योदा रक्षाकम् सविषाचास्तो चष्ठन् तस्मात् ते पराभवन् विप्रभ्यो हिते समभवन् तदेशाभ्यणोक्ता आपोहयत्प्रहतेर्निर्भमायन् दक्षन् तथा नारगन्ते स्वयम्भम् तथैवसृजन्तसर्गाः अभ्यो वा तस्मादिदकम् सर्वम् ऋणसः स्वयम् भजी तस्मादिदकम् सर्वम् शिशिरमिवाध्रुमिवा भवत् प्रजापतिर्वावदत् आत्मनात्मानम् विधाय तदेवानुप्राविशत् तदेशागणोक्ता विधाय लोकानि विधाय भूतानि विधाय सर्वाः प्रतिशोदिशश्च प्रजापतिप्रसमजाय तस्य आत्मनात्मानमभिसंविवेशयति सर्वमेवेदमाप्त्वा सर्वमवरुध्य तदेवान् प्रविशति यगेवम् वेद चतुष्टय्यापो गृह्णाति तत्त्वारिवापाकम् रूपाणि मेघो विद्युत् स्तनेत्रवृष्टिः तान्ेवावरुन्धे आदपतिपश्या गृह्णाति ताः पुरस्तादुपदधाति एतावै ब्रह्मवर्तस्या आपः मुखत एव मुखता ब्रह्मवर्तशिधरः कोऽप्यागृह्णादे का दक्षिणतवपदधादे एतावै तेजस्विने लाभः एतदेवास्य दक्षिणतवदधादे तस्माद्दक्षिणार्थस्तेजस्वितरः स्थावरा गृह्णादे ताः पश्चादुपदधाते प्रतिष्ठिता वै स्थावराः पश्चादेव प्रतिष्ठते वहन्तेर्गृह्णादे ओजधा वा एता वहन्दे दिवोद्विदे दिव आगोचदे दिवधावन्तेः ओजयवास्योत्तरतोदधाने तस्मादुत्तरोऽर्थवोजस्मितरः सम्भार्या ता गृह्णादे तावध्यवपदधाने इयम् वै सम्भार्याः अस्यामेव प्रतिष्ठते वल्वल्या गृह्णादे तावुपरिष्टादुपादधाने ता असौ वै वल्वल्याः अमुष्यामेव प्रतिष्ठते ऋक्षोपदधाय ऋक्षुवा आपः अन्नम् वा आपः अर्भ्यो वा अन्नम् जायते यदे वाभ्यो अन्नम् जायते अदवरुन्धे तम् वा केतवरुणाः केतवोपातरशनार्षयो जन्वन् तस्मादारुणकेतुकः अदेशाभ्य नो मोक्ता एतवरुणाशश्च ऋषोपातलशनाः दृष्टागुङ्माहितादो सहस्तथामिनि शरदश्चैव प्रतिष्ठति त एतमग्निवम् वेदग्नेमुत्तरवेदीम् खात्वा अभागम् पूरयति अभागम् सर्वत्वाय पुष्करपर्णगम् ऋग्मम् पुरुषमित्युपदधाति तो हि पुष्करपर्णम् सत्यगम् ऋग्मः अमृतम् पुरुषः एतावद्भावास्ति यावदेशत् तावदेवास्ति अदवर्धे पूर्णमुपदधानि अपामेव मे समवृन्धे अथो स्वर्गस्य लोकस्य समह्यै आपमापापः सर्वाः अस्मानस्मानुगामुदः अग्न्यवायश्चर्यश्च रानि वायुमश्वारश्वुमयः लोकम् प्रणश्चरेव केवली पञ्चनिलयदधानि न्तोऽग्नेः यावानेवनेः अञ्जिमुदे लोकम् प्रणयाद्वितीयामपदधादे पञ्चपदा वे विराट तस्यावाह्यम् पादः अन्तरिक्षम् पादः जवोपादः विशः पादः मनोरजापादः विराजेव प्रतिष्ठते दे, एतमग्न्यम् जते यौजेनमेवम् वेद अग्न्यम् प्रणेयापथमाधाय तमभिदयेत अभिष्टक उपदधाति अज्ञहो त्रेदविषपोर्णवासयोः वशुबन्धे चातुर्मास्येषु अथो आहोः सर्वेण यज्ञकृतुष्जे असहस्माहारुणस्मायम्भुवः सामित्रः सर्वोऽज्ञम् मन्यामहे नाभागेते कमद्यञ्चिनदे सत्रियमद्यञ्चिन्वानः कमग्नुतेञ्चिन्वाणः कमग्नुते शातुमग्निवाणः कमग्नुते वैशुकमद्यञ्चिन्वाणः कमग्भ्यञ्चिनुते उपानुवाक्यमाशुमग्निञ्चिन्वाणः कमग्नुते कुमारुणकेटकमग्निवान इतिषाणवसर्गस्फालयेत् अन्येताश्रेण्यः अस्मान्नानुषद्यः सोत्तरवेदशुक्रदुषजिन् वेद उत्तरवेद्यागत्यग्निश्रीयते प्रजाकामस्थ्यन् वेद प्राजापत्यो वाजो अग्निः राजापत्याः प्रजाः प्रजावान् भवति त एवम् वेद पशुकामस्थिन्वेद सञ्ज्ञानम् वा ये तत्पशूनाम् यदा वः पशूनामेव सम् वृष्टिकामश्चिन्वेद आवो वै वृष्टिः वर्गन्यो वर्षको भवति एवम् वेद आमया वीचिन्वीत आवो वै भेणुजम् वेणुजमेवास्मीकरोति सर्वमागिरेति अभितरज्ञश्चिन्वेद वज्रो वा आवह वज्रमेव भ्राजुर्वेभ्यप्रहरति स्तृदयेनम् तेजस्कामोजस्कामः ब्रह्मवर्गधकामस्वर्गकामश्चिन्वीद एतावद्वास्ति यावदेत यावदेवास्ति रथवरुन्धे तस्यैरमृतम् परिणतिनधावेत् अमृतम् वा वः अमृतस्यानन्दनित्यै नाप्समोद्रपुरीषम् कुर्यात् न निष्ठीवेत् न विवसनस्नायात् वा देशोग्निः एतस्याज्ञदाहायुष्करवर्णानिगरण्यम् वा तिष्ठेत् एतस्याग्रेणभ्यालोहाय न कोऽस्याश्नेयाय मोदकस्य अघातुका अन्येण मोदकानि भवन्ति अघातुका आपः एतमज्ञञ्च मृते यूतेनमेवम् वेद इमारकम् भुवनादेशेवा इन्द्रश्च विश्वे सेवाः यज्ञञ्चलस्तन्वम् च प्रजाम् अस्माकम् भवत्वपितातनूनाम् आप्लवस्व प्रप्लवस्व आण्डीभवरमाभोः सुखादीन् दुःखनिधनाम् प्रयवञ्चस्व स्वाम् पुरम् भरीलयस्वायम्भुवाः ये शरीराण्यकल्पयन् ते ते देहम् कल्पयन्तो माजले ख्यास्पदीर्डते उत्तिष्ठतमा स्वप्ता अग्निमिच्छम् सौर्येण सुजोषः युवासुवासाः अष्टाचक्रणवद्वारा देवानाम् पूरयोध्या अस्यागम्हेरण्शः स्वर्गो लोकोज्योतिषाभृतः लोपैताम् ब्रह्मणो वेदा अमृतेनाभृताम् पुरीम् तस्मै ब्रह्म च ब्रह्मा च आयत्केत्यम् प्रजान्तदव विभ्राजमानागम्हरिणीम् शशासम् परीवृता वरगोम् हिरण्मयीम् ब्रह्मा विवेशा पराजिता परागेत्यज्यामयी परागेत्यनाशयी विकजामुत्तजान् वेदे यद्वान् देवासुरानुभयान् यत्कुमारीमन्त्रयते यद्भ्योषद्यत्पतिव्रताः दे, हरिप्त्यम् च क्रियते अग्निस्तदनुवेधरे अजदातश्चातश्च यज्वानो येऽप्येज्विनः र्यन्तो नापेक्षन्ते इन्द्रमग्निश्चये विदुः शिकटायमसंयन्ति अश्विभिः समुदेरिताः अस्माल्लोकायमुष्पाच्च यदा त्वश्विः अपेतपेतभिसर्पदादः ए त्वस्थपुराणाय च नूतनाः अहोभिरभिरक्तिभिर्व्यक्तम् यमोददात्वभानमस्मै नृपणन्तर्यः अकृष्टाय कुमारेषु कलेनेषु जारिणेषु जगे हिताः एतपीडाण्डपीताः अङ्गारेण जनेभूताः भयान् पुत्रपौत्रकान्वे यमराजगान् शतमेण् शरदः अलो यद्ब्रह्मविलवम् वितनाम् च यमस्य च मरुणस्याश्विनोरग्नेः मरुदाम् च विहायसा कामप्रयवणम्बेरस्तु हिलागो ब्रह्मेश्ववो राजोधनम् पुत्रालापो देवी विहादिता विशीर्ष्णे ग्रध्वश्रीर्ष्णे च अपेतो निदयम् हसः परिपासग्श्वेतपुक्षम् विजङ्घकुन्दवलोदरम् सगारवाच्यायया सह अग्नेनादयसन्दशः येर्ष्या भूये बुभुक्ष्वा अन्यम् कृत्याम् अग्ने सन्तृशः पर्जन्याय प्रगायत पुरः पुत्राय मेथुरेः सदो यवसमिच्छतु इदम् वयः पर्जन्याय स्वराजेः इतोऽस्मनतम् तद्दिगवता मयोभोन्मादो विश्वकट्टयः सन्तस्मै श्रीप्पलामोढधे देवकोपाः योगभ्रमोढधीनाम् गवाः गणोत्यनुवताम् पर्जन्यः पुरुषीणाः पुनरायः पुनर्भगः पुनर्ब्राह्मणमयतुमा पुनर्द्रविणमयतुमा यन्मेत पृथिवीमस्कारे यदोरप्यदलज्ञलापः विरन्द्रत् पुनराजते दे, दीर्घायित्वायवर्चे यन्मैलेतः प्रसिध्यते यन्महाजायते पुनः तेन मामृतम् कुरु तेन स्वप्रजलम् कुरु अभ्यस्तिरोधा जा जायता जा जा अवैश्ववनस्तदा विरोधेहितपत्त्रान्नः हे अपोष्णन्ति केचन राष्ट्रेमायाम् वैश्रवणः प्रधरगुन्दहस्रबन्धुरम् पुरुश्चक्रगुण्धहस्राश्वम् आस्थायायादिनो बलिम् कस्मैभूतानि बलिमावहन्ति धनङ्गाभोहस्त्रिरण्यमश्वान् तथा वसुमतो यज्ञस्य श्रियम् विषीम् विराजम् क्रौञ्चे च वैरागे च महागिरौ कमन्ता स्वकुम्भार्यन्नकरन्तव विधिमन्त्राः कर्गोदवोध्वम् यदिकुम्भरेकौ वेदायाजम् बलिः सर्वभूताधिपतलेन मलिते असबलिकम्भतोपतिष्ठेत क्षत्रम् क्षत्रम् वैश्वणः ब्राह्मणा वयज्ञ स्मः नमस्तेऽस्त्वहि कुंसेः अस्मात्प्रविशान्नमद्धीति कर्म अक्षरमग्निपातचेत यस्मिन्नेतत्कर्मप्रयुञ्जीत तिरोधाभूः तिरोधाभुवः तिरोधास्वः तिरोधाभोद्भवस्वः सर्वेषाम् लोकानामाधिपत्ये सीतेति अक्षरमग्निबञ्जीत यस्मिन्नेतत्कर्मप्रयुञ्जीत तिरोधाभूस्वाहाः तिरोधाभुवस्वाहा तिरोधास्वस्वाहाः तिरोधाभूद्भवस्व स्वाहा यस्मिन्नस्य काले सर्वाः भवेयुः अभिब्राह्मणमुखीनाः अस्मिन्नन्धः काले प्रयुञ्जीत परस्वप्तजनाद्येपि मास्मप्रमाद्यन्तमाध्यापके सर्वार्थाः सर्वार सिद्ध्यन्ते यगेवम् वेद शुद्ध्यन्यतमधानताम् सर्वार्थानुसिध्यन्ते यस्ते विघातुकोऽभ्याता ममान्तरहृतगेश्वरः तस्मादि मम ग्रपिण्डम् जुहोमि समेऽर्थात्मा विमधेत् मय स्वाहा राजा हि साहिने नमो भयम् वैयेश्वरमणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वैयेश्वमणो ददातु उपेराय वैश्वमणाय महाराजाय नमः केतवो अरुणासश्च ऋषयोपातलशनाः प्रतिष्ठागुफलसा हि अमाहितासो सह श्रद्धायुधम् शिवानः सन्तमाभवन्तु दिव्याः बमोषदयः सुमृकाधरस्पति माते व्योमसन्धिशि संवत्सरमेतद्वदञ्जले तौ वामासौ नियमः समासेन औदुम्बरेभ्यः समिभ्यरग्निम् परिहरेत् पुनर्वामेत्युन्द्रियमित्येतेनानुवाकेन परिबोधाभिरभ्यः कार्यम् कुर्वेत अवन्धयवान अनुभये वायवेशूर्याय ब्रह्मणे प्रजापतये चन्द्रमथे नक्षत्रेभ्यः ततोभ्यः संवत्सराय अरुणायारुणाय अरुणा क्वान् बर्हिणः अरण्येऽधिरन् भद्रङ्गन्नेभित्वा महानाम् नैभृदकुम्भग्रः स्पश्य तमाचारभ्यो दद्यान् शिवासृङ्गमे क्योटधीरा नभते स्मृगेति भूमिम् एवमु वर्गे हे दक्षिणा रघुम् संवादश्च क्षौमम् अन्यद्वा एवज्ञस्माद् जागधर्मेण अरण्ये धीय तपस्वी पुन्या भवति तपस्वी पुण्या भवति पुत्रम् तथा तु ओम् शान्ति